सुमुखं त्रिनेत्रं जडाधरं पार्वती वामभागम् सदा शिवं रुद्रम् अनन्तरूपं चिदम्बरेश हृदि भावयामि चिदम्बरेश हृदि भावयामि ीतं फणिभूषणाङ्गं गणेशतातं धनदस्य मित्रम् कन्दर्पनाशं कमलोत्पलाक्षं चिदम्बरेश हृदि भावयामि चिदम्बरेश ताद्रिनाथं श्रीवामदेवं भवदुःखनाश रक्षाकरं राक्षस पीडितानां चिदम्बरेश देवादिदेवं जगदेकनाथम् देवेशवन्द्यं शचिखण्डचूडं गौरीसमेतं कृतविघ्नदक्षं चिदम्बरेशं हृदि पावयामि वेद्यं सुरवैरिविघ्नं शुभप्रदं भक्तिमदन्तराणा कालांतकं श्रीकरुणा करुणाकटाक्षं चिदम्बरेश हृदि भावयामि त्रिचापं त्रिगुणात्मभावं गुहात्मजं व्याघ्रपुरीशमाद्यम् स्मशानवासं, वृषवाहनस्थं चिदम्बरेशम् हृदि ख्यसुत वैभवाठ्यम् समस्तदेवैः परिपूजिताङ्क्रिं चिदम्बरेशम् हृदि भावयामि तमेव भान्तं ह्यनुभाति सर्वं अनेकरूपं परमार्थमेकम् पिनाकपाणिं भवनाशकेतुं चिदम्बरेशम् हृदि भावयामि यं त्रिलोचनं चन्द्रकलावतं सं पतिं पशूनां हृदि सन्निविष्टं चिदम्बरेश हृदि श्वाधिकं विष्णुमुखैरुपास्यं त्रिरोचनं पञ्चमुखं प्रसन्नं उमापतिं पापहरं प्रशांतं चिदम्बरेशं हृदि भावयामि ंसारिमित्रं कमलेंदुवत्रं कन्दर्पगात्रं कमलेशमित्रं चिदम्बरेश कृतिभावयामि परिपूर्णगात्रं गौरी कळत्रं हरिदम्बरेशम् कुबेरमित्रं जगतः पवित्रं चिदम्बरेश दृचापं कान्ता समाक्रान्तनिजार्थ देहम् कपर्दिनं कामरिपुं पुरारिं चिदम्बरेश हृदि भावयामि न्तकालायितचण्डनृक्तं समस्तवेदान्तवचो निगूढम् अयुग्मनित्रं गिरिजासहायं चिदम्बरेश हृदि भावयामि कपालिनं शूरिनम् अप्रमेयं नगात्मजावक्रपयोजसूर्यं चिदम्बरेश हृदि भावयामि सदाशिवम् सत्पुरुषैरनेकैः सदार्चितं सामशिरः सुगीतं वैयाक्रचर्माम्बरमुग्रमीशं चिदम्बरेशं हृदि भावयामि चिदम्बरेशं हृदि भावयामि चिदम्बरस्य स्तवनम् पठेद्यः प्रदोषकालेषु पुमान् सधन्यः भोगानशेषान् अनुभूय भूयः सायुज्यमप्येति चिदम्बरस्य सायुज्यम्येती चिदंबर से